थ त्र्यधिकशततमः सर्गः ताम् श्रुत्वा करुणाम् वाचम् पितुर्मरणसंहिता राघवो भरतेनोक्ताम् बभूवगतचेतनः तम् तु वज्रमिवोत्सृष्टमाहवेदानवारिणा वाग्वज्रम् भरतेनोक्तममनोज्ञम् परन्तपः प्रगृह्य रामो बाहू वै पुष्पिताङ्ग इव द्रुमः वने परशुनाकृत्तस्तथा भुभि पपातः तथा हि पतितम् रामम् जगत्याम् जगतीपतिम् कूलघातपरिश्रान्तम् प्रसुप्तमिव कुञ्जरम् भ्रातरस्ते महेश्वासम् सर्वत शोककर्षितम् रुदन्तः वैदेह्या शिशिचुः स तु सञ्ज्ञाम् पुनर्लब्ध्वा नेत्राभ्यामश्रुमुत्सृजन् उपाक्रामतकाकुत्स्थः कृपणम् बहुभाषितुम् उवाच भरतम् वाक्यम् धर्मात्मा धर्मसंहितम् किम् गते कस्ताम् राजवराद्धीनामयोऽध्याम् पालयिष्यति किम् नु तस्य मया कार्यम् दुर्जातेन महात्मनः योऽ मृतो मम शोकेन समया न च संस्कृतः अहो भरतसिद्धार्थो येन राजा त्वया नघा शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः निष्प्रधानामनेकाग्राम् नरेण्रेण विना कृताम् निवृत्तवनवासोऽपि नायोध्याम् गन्तुमुत्सहे समाप्तवनवासम् मामयोध्यायाम् परन्तप को नु शासिष्यति पुनस्ताते लोकान्तरम् गते पुरा प्रेक्ष्यसु वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् एवमुक्त्वाथ भरतम् भार्यामभ्येत्य राघवः उवाच शोकसन्तप्तः पूर्णचन्द्रनिभानना सीते मृतस्ते श्वशुरः पितृहीनोऽसि लक्ष्मण भरतो दुःखमाचष्टे स्वर्गतिम् पृथिवीपतेः ततो बहुगुणम् तेषाम् बाष्पम् नेत्रेष्वजायत तथा ब्रुवति काकुत्स्थे कुमाराणाम् यशस्विनाम् ततस्ते भ्रातरः सर्वे भृशमाश्वास्य दुःखितम् अब्रुवम् जगति भर्तुः क्रियता मुदकम् पितुः सा सीता स्वर्गतम् महानृपम् नेत्राभ्यामश्रुपूर्णाभ्याम् न शशाकेक्षितुम् प्रियम् सान्त्वयित्वा तु ताम् रामो रुदतीम् जनकात्मजाम् उवाच लक्ष्मणम् तत्र दुःखितो दुःखितम् वचः आनयेङ्गुदिपिण्याकम् चीरमाहरचोत्तरम् जलक्रियार्थम् तातस्य गमिष्यामि महात्मनः सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज अहम् पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ततो नित्यानुगस्तेषाम् विदितात्मा महामतिः मृदुर्दान्तश्च कान्तश्च रामे च दृढभक्तिमान् सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् अवतारयदालम्ब्य नदीम् मन्दाकिनीम् शिवा तेषु तीर्थाम् ततः कृच्छ्रादुपगम्य यशस्विनः नदीम् मन्दाकिनीम् रम्याम् सदा पुष्पितकाननाम् शीघ्रस्रोतसमासाद्यतीर्थम् शिवमकर्दमम् शिशिचुस्तूदकम् राज्ञे तत एतद्भवत्विति प्रगृह्यतुमहीपालो जलापूरितमञ्जलिम् दिशम् याम् यामभिमुखो रुदन् वचनमब्रवीत् एतत्ते राजशार्दूलविमलम् तोयमक्षयम् पितृलोकगतस्याद्यमद्दत्तमुपतिष्ठतु ततो मन्दाकिनीतीरम् प्रत्युत्तीर्य स राघवः पितुश्चकार तेजस्वी निर्वापम् भ्रातृभिः सह ऐङ्गुलम्बदरैर्मिश्रम् यस्य रामस्वदुःखार्थोरुदन् वचनमब्रवीत् इदम् भुङ्क्ष्व महाराज प्रीतो यदशना वयम् यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ततः स्तेनैव मार्गेण प्रत्युत्तीर्यसरित्तटात् आरुरोहनरव्याघ्रो रम्यसानुम् महीधरम् ततः पर्णकुटीद्वारमासाद्यजगतीपतिः परिजग्राहपाणिभ्यामुभू भरतलक्ष्मणौ तेषाम् तुरुदताम् शब्दात् प्रतिशब्दो भवद्गिरौ भ्रातॄणाम् सह वैदेह्य सिंहानाम् नर्दतामिव महाबलानाम् मृदताम् विज्ञायतु मुलम् शब्दम् तेषामेव महान्च्छब्दः शोचताम् पितरम् मृतम् अथ वाहान् परित्यज्य तम् सर्वेऽभिमुखास्वनम् अप्येकमनसो जग्मुर्यथा स्थानम् प्रधाविताः हयैरण्ये गजैरण्ये रथैरण्येश्वलम् कृतैः सुकुमारास्तथैवान्ये पद्भिरेव नराययुः अचिरप्रोषितम् रामम् चिर विप्रोषितम् यथा द्रष्टुकामो जनः सर्वो जगामसहसाश्रमम् भ्रातॄणाम् त्वरितास्ते तु द्रष्टुकामाः समागमम् ययुर्बहुविधैर्यानैः खुरनेमि समाकुलैः सा भूमिर्बहुभिर्यानैरथनेमि समाहता मुमोचतुमुलम् शब्दम् द्यौरिवाभ्रसमागमे तेन वित्रासिता करेणुपरिवारिताः आवासयन्तो गन्धेन जग्मुरन्यद्वनम् ततः वराह वृकसिंहाश्च महिषा स्रुमरास्तथा व्याघ्रगोकर्णगवया वित्रे स्वस्पृशतैः सह रथाहंसा नत्यूहाः प्लवाः परे तथा पुंस्कोकिलाः क्रौञ्च विसञ्ज्ञाभेजिरे तेन शब्देन वित्रस्तैराकाशम् पक्षिभिर्वृतम् मनुष्यैरावृता भूमिरुभयम् प्रबभौ तदा ततस्तम् पुरुषव्याघ्रम् यशस्विनमकल्मषम् आसीनम् स्खण्डिले रामम् ददर्श सहसा जनः विगर्हमाणः कैकेयी मन्थरासहितामपि अभिगम्य जनो तान्नरान् बाष्पूर्णाक्षान् समीक्ष्य अथ सुदुःखितान् पर्यश्वजत धर्मज्ञः पितृवन्मातृवच्च सः स तत्र कांश्चित्परिषस्वजे नरान्नराश्च चकार सर्वान् स वयस्य बान्धवान् यथार्हमासाद्य तदा ततः स तेषाम् रुदताम् महात्मनाम् भुवम् च खम् चानुविनादयन् स्वनः गुहागिरीणाञ्च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्र्यधिकशततमः